नारायणीयं दशकं 47 सेवन् मीटर् रथोद्धता ये कदा दधिविमाधकारिणीं माधरं समुपसेदिवान् भवान् स्तन्यलोलुपदया निवारयन्नमेत्य पपि वान् पयोधरौ अर्धपीदकुजकुट्मले त्वयि स्निग्धहास मधुराननां भुजे दुग्धमीश दहने परिसृतं धर्तुमाशु जननी जगामदे सामिपीदरसभङ्गसङ्गदक्रोधभार परिभूतचेतसा मन्दा मन्ददण्डमुपगृह्य पाडितं हन्ददेव दधिभाजनं त्वया उच्चलध्वनिदमुच्चकैस्तदा सन्निशम्यजननी समादृता तद्यशोविसरवदर्शसा सद्य एव दधि विस्तृतं वेदमार्गपरिमार्गिदं वृक्षा त्वामवीक्ष्य परिमार्गयन्त्यसौ सन्तदर्श सुकृतिन्युलूकले दीयमाननवनीतमोदवे त्वां प्रगृह्य बदभिदिभावनाभासुराननसरोजमाशु सा ोषरूषितमुखी सखी पुरो बन्धनाय रशनामुपाददे बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छति सा नियुज्य रशनागुणान् बहून् द्वि अङ्गुलेन अखिलं विस्मितोऽस्मित सखी जनेक्षितां स्विन्नसन्नवपुरुषं निरीक्ष्यतां नित्यमुक्त वपुरप्यहो हरे बन्धमेव कृपयान्वमन्यधाः स्थीयदां चिरमुलूफले फले त्यागदा भवनमेवसायदा प्रागुलूकलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्तिताः यद्यपाश्यसुगमो भवान्विभो सम्यदकिमुस संयत यवमादि स पाशयानया परिपाहि मां सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द